मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं फोर् दशरथव्रतोपदेशः श्रीगणेशाय नमः मुद्गल उवाच अधुना शृणुदक्षत्वं संवादं तं पुरातनं दशरथस्य राजर्षेर्वसिष्ठस्य महात्मनः येन त्वं तिथिमुख्यायाश्चतुर्ध्या व्रतजे परे महिम्नि निपुनोऽत्यन्तं सम्भवेद्ब्रह्मपुत्रः महायशा दशरथो वन्ध्यदोषभयार्दितः वसिष्ठं शरणं गत्वा नत्वा पप्रच्छतं मुनिं दशरथ उवाच पुत्रप्राप्त्यर्थमेवम्भो वदोपायं महामुने शिष्यं तारयस्व भवार्णवाद ततस्तं मुनिशार्दूल उवाच नृपमुत्तमं कुलदेवं गणेशं ते भजस्वव्रतसंयुधः वसिष्ठस्य वच पुनस्तं प्रणनामः पप्रच्च विनयेनैव संयुतः स नृपोत्तमः कीदृश्यं तद्व्रतं महात्मनः कृतं केन व्रतं तत्र भवेत्सिद्धिश्च कीदृशी कस्मिन् काले व्रतं कार्यं पूजनं कीदृशं मुने वद सर्वं विशेषेण करिष्यामि त्वदाज्ञया वसिष्ठ उवाच चतुर्थी गणनाथस्य प्रियात्यन्तं नृपोत्तम शुक्लाकृष्णा समाख्यादा सर्वसिद्धिप्रदा भवेत् चन्द्रोदये यदा प्राप्ता कृष्णा सैव चतुर्थीका सा सङ्कष्टहरा प्रोक्ता चतुर्विधफलप्रदा चतुर्विधं जगत् सर्वं जानीहि त्वं नृपात्मजा तत्समाख्यादं बन्धनेन विशेषतः इह भुत्वा भोगान् संकष्टी करणान्नृप सर्वसङ्कटहीनः स स्वानन्दे प्रगमिष्यदि यदा चन्द्रोदये भूप चतुर्थी नैव लभ्यते प्रदोषव्यापिनी ग्राह्य सर्वसङ्कटमुक्तये उभये चन्द्रसंयुक्ता प्राप्ता सा व्रतधारिणी तदा स्वेच्छाविहारेण कर्तव्या चन्द्रव्यापिनी तृतीयायां प्रदोषाश्च चन्द्रस्योदयगा भवेद् तदा सैव सदा ग्राह्य विशेषतः शुक्ला वरदा प्रोक्ता चतुर्नां नात्र संशयः सञ्जिता सञ्जितानां वैव्रतकारिजनाय च धर्मार्थकाममोक्षाद्याश्चत्वारो ये पदार्थकाः ताण्डदादिगणेशस्य प्रीधिदा सा चतुर्थीका मद्याह्नव्यापिनिग्राह्या सदा शुक्लचतुर्धिका उभयत्र यदा नाप्ता पूर्वविद्धा मदातिथिः उभयत्र यदा प्राप्ता भवेत् प्रखरभानुगा तृतीया चेत् तदा सापि पूर्वविद्धा मदातिथिः प्रहरा दूर्ध्वका भूपतृतीया सूर्यसंयुधा तदा पूर्वापरा वापि कार्या सैव चतुर्धिका चतुर्धी व्रतहीनस्य फलहीनानि भूमिपव्रतानि सर्वकालेष्वाद्या कार्या सा ततः ब्रह्मणाचरितं पुरा व्रतस्यैव प्रभावेण निर्ममेत् सकलं जगद विष्णुनाशङ्करेणैव कृतं व्रतमनुत्तमम् पालने हरणे देवौ समर्थौ तौ बभूवधुः योगिभिः सुखमुख्यैश्च कश्यपादिमुनीश्वरैः मुनिभिश्च कृतं पूर्वं स्वस्वकार्यार्थसिद्धये इह भुक्त्वाखिलान् भोगानन्दे स्वानन्दगा बभुः नानेन ना सदृशं विद्धि चतुर्नां साधकं नृप अन्यैर्नानाविधैरे तत्कृतं वर्णाश्रमस्थितैः ते सर्वे ब्रह्मभूता वैयुःस्वानन्दके पुरे ये तद्व्रतं महीपाल कुरुत्वं भावसं युधफ भवितासि सपुत्रश्च तथा स्वानन्दगो भवेहे। ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे चुर्धे खंडे गजानन चरिते चिते दशरथव्रतोपदेशो चुर्ध्याय ओम।